टे गिरिम् गच्छ सदा मे श्रिरिम्बीठश्च सत्त्वाभिष्टे विश्वाचादयावसि सत्त्वमुदः सर्वा भ्रूणान्यारुषी अरायम् ब्रह्मणस्पदे तीक्ष्ण शृङ्गो धिषन्निः अरो यद्दारुप्लवादे सिन्धोः पादे अपोरुषम् स्वदुर्घणो तेन गच्छपदस्थलम् यद्ध प्राचीरज गन्धोरो मण्डोरधानिकीः तदा इन्द्रशत्र वः सर्वे बुदया तव कामानेतपर्यग्निमहृषत देवेष्टकृधस्रवः कादधर्षति ग्निम् हिन्दु नो जयः सप्तिमासुमीवाजिषु तेन चेष्वधनम् धनम् यजाका आकरा महेशेन याग्नेतभूच्या तान् नो हिन्वमघत्ताजे आग्नेः सूरम् गलिम्भरपृथुम् गोमन्तमश्विनम् अन्धिकम् वर्तया मणिम् अग्ने नक्षत्रमजरमासूर्यम् रोहयो दिविर्जनेभ्यः भजो श्रेष्ठ श्रेष्ठत् गोधात्रेभो दधत् श्रीमानुकम्भुवनादीर धामेन्द्रश्च विश्वेवाः यज्ञम् च नस्वन्वम् च प्रयाम् चादित्यैरिङ्गः सहजी कृपाति आदित्यैरिङ्गस्वगणो मरुद्भिरस्माकम् भोत्वविदातनूना अत्पायदेवा असूराण्यदायम् देवादेवत्वमभिरक्षमाणाः त्यम् च मनगन्तराजित्स्वरामिराम्बर्यपश्यन् सूर्यो न दिवस्पाद्वादो अन्तरिक्षाय अग्रन्नः पार्थिवेभ्यः दोषासविधर्यस्य देहरः स्वतम् स वाम् अर्हति पाहिनो दिद्युतः पदम् चाह चक्षन् नो देवः सभिता चक्षुर्नभुतपर्वतः चक्षुर्घातादधातुनः चक्षम् नो देहि चक्षुषे चक्षुर्विक्षैतनोभ्याः सन्धेदम् विच पश्येम सुसन्दृशम् त्वाभयम् प्रदीपस्येम सूर्य विपश्येम विचक्षसः ुदसौ सोऽदयम् माहामगो भगाः अहम् तद्विद्वलापतिमभ्यासा कीरासरिः अहङ्केतुरहम् मोर्दाहमुद्राविवाचनि अमेलक्रदम्पतिः सेहानाया उपाचरे मम पुत्रा शत्रुहणोऽसो अमेदुहिता विराट् उदाहरमक्रिलञ्जया पत्यो मे श्लोकामः येनेन्द्रो ह्रवित्तमः जिलन्दलग्निदेवासपत्नामिला भुवम् अस पत्नासपदग्नी पत्ना पत्ना जयन्त विभुवरी आवृक्षमन्यासाम्भो राधो अस्ते यसामिव समाजैष विमा अहम् सपत्नीरभिभुवरी यथाहमस्य वीरस्याभिराजाः निजनस्य च तीव्रस्याभिराजसो अस्य मा सर्वथाभिहरी इरमुत्मा जमानासो अन्ये निलीरमन्तुभ्या मे सुसाः भ्यम् तुभ्यं दुद्या, सोऽत्वा गिरस्वात्या आयन्ति इन्द्रेण मद्यसमानञ्जुराणो विश्वस्य विद्वा इह पाहि सोमम् प्रवोशतामना सा सोमा वस्वै सर्वहृता देवकाः वः सुनोति ्रस्तस्य परा ददाति प्रदत्सिमिच्छारोमस्मै कृणोति न अनस्पष्टो भवत्येषो अस्य यो अस्मै देवान् न शृणोति सोमम् निरत्रौ मघपातम् दधाति ब्रह्मद्विदोहन्तनानुदिक्तः अश्वायन्दोहो भव्यन्तोहो भाजयम् हवाहमहेत्वोपगन्धबाहु आहूषन्तस्ते सुमतौ न वायाम् भयमिन्द्रत्वा सुम् भूवेमञ्चामि त्वा रविषा जीवाना जगमज्ञातजक्ष्मादुकराजक्ष्मा ग्राह्य जग्राहयति वैदेव नन्तस्या इन्द्रार्धे प्रमो मुक्तमेनम् निरेक्षिता वापरे दोषति मृत्योरम् दिगम्येत एव समाहारा विनिर्मिते नृपस्थादस्वार्ढमेनम् सदसाय सहस्राक्षेण सदसारदेन सदायूडाह विषाहार्गमेनम् म् शरदो न जातीम् त्वस्य दुरितस्य पादम् जीव शरदोमध्यमानस्वम्भे मन्ता शतमोन्द्राणि शतमिन्द्रागीतविता बृहस्पतिशरायूषा हि देवम् सर्वाङ्गसर्वम् एतक्षः सर्वमायश्च ते विधम् ब्रह्मणाग्निः संविधानो रक्षोहा बाधतामिदः अमीहि वायसे गर्भम् दुर्नामायोनिभासये ये गर्भममी वा दुर्नामायोनिभासये अग्निष्टम् ब्रह्मणा सहनिः क्रव्यादा मनीरसज यस्ते हन्ति प्रतयन्तम् निषत्स्वम् यः सरीशिवम् जातम् यस्ते शिखां सदितमितो नाशयामसि यश्च गुरोविहरत्यम् तदा दम्पीशये यो निम् यो अन्तराले हितमितो नाशयामसि स्वाभ्रापदर्भूत्वा जारो भूत्वा निपद्याते प्रजां ये नियामसि चास्वोहीत्वा निपद्यादे प्रजां यस्य निहमिदो नाशयामसि अक्षेभ्याम् तेनासीकाभ्याम् धर्णाभ्याम् शुभोकादधि लक्ष्मम् तेरण्यम् हस्तिष्काः जिह्वाजामि देवाभ्यस्तभुष्ण्याभ्यस्तीकसाभ्य अनो यक्ष्मम् दोषण्या अमन्दाभ्याम् बाहुभ्याम् विवृहामि रे आन्द्रेभ्यस्ते गुदाभ्या वनिष्ठार्हति यक्ष्मम् मधस्राभ्याम् यज्ञाभ्रादिभ्य विवृहामि रे पूरुभ्याम् ते अष्टीवद्भ्याम् वार्षेभ्याम् प्रपादाभ्याम् लक्ष्मम् श्रोणिभ्याम् भासदात्मम् दरसो विबृहामिरे मेघनात्मनम् करनाल्लोमभ्यस्ते नखेभ्याः लक्ष्मम् सर्वस्मादात्मनस्वमिदम् विबृहामिरे अङ्गादङ्गाल्लोम् नो लोम् नो जातम् पर्वणि पर्वणि म् सर्व स्वाधात्मनस्तमिरम् विग्रहामि अपेहि वनसस्पदे वक्राम परश्च परो निर्वृत्या आक्ष बहुधा जीव सोमनाः भद्रम् वै वरम् वृणते भद्रं यदाशसा निश्वसाभिशो पारिवदा यत्समन्दाः अग्निर्विश्वान्यप दुष्टा नारे अस्मद्दधातु यदिन्द्र ब्रह्मण स्वरे द्रोहन् नरामसिरसो द्विढराम् पातु ष्माजाग्रस्वप्रसरम् कल्पः पापोऽयम् सरिच्छतु जो नो द्रेष्टि सृच्छतु देवाः कवोदीर्योरिच्छन् भूतो निर्वृत्याधिगमा जगाम स्मार्चामघृणवानुष्कृधिंसन्नो भवस्य गुणो गृहेषु अग्निर्हि विप्रा जराः पक्षिणी नोक्तु क्षिवीनभाद्यस्मानाष्ट्याम् परम् कृणुते अग्निधारे शम् नागोभ्यश्च पुरुषेभ्यश्चास्तु मानाहिंसीरिहरे वारोगमे द्यः कबोदः परमग्नौ कृणोति यश्च दूतःप्रहीतजेष्ठस्मै यमा जनमो अस्तु मृत्यवे ऋमोदम् नुदप्रणोदमिगम् मदन् दः परिगान् नयध्वम् संयोपयम् दोराभिमोर्ध्वम् प्रपदात्मरिक्तः विषवम् आसमानानाम् सपत्नानाम् विराधहिन् हता नोराङ्ग्रधिविराजङ्गोपलिङ्गवा आस्मितवत् महेन्द्र निवारिष्टो अक्षदः अथ स्वपत्रा मे पदो सर्वे अभिष्टिताः अत्रैव कोऽपि न श्यामे आत्मी न्यथा मदधारम् मदाो रामागमम् विश्वे नृतमावोह भ्रहमा वोहम् वो धमीनिन्दते योगक्षेमम् वा आदाहम्भूयातमोत्तम आवोह भोर्दाक्रमी ण्डोगाः युवोदकान् भण्डोगाः बोधकादीव सुब्धेन सुतस्य कलशश्च राजसि त्वम् रजम्बो भुवीराः पुनस्कृतित्वम् तपः परिद्यायस्वाः न मन्द सोऽहवामहे परिशक्रम् सुधामन्ना यज्ञो जग ह्यस्पृधोदयम् तम् मधवानबीमहे सोमस्य राज्ञो वरुणस्य धर्माणि हृहस्वदे वर्त्यासर्वाणि ङ्गभम् भक्षमागमम् शरापमन् सेवम् प्रथम सूरिर्मृजे सुयत्यागमम् भामृति विश्वामित्र नमन ृजन्मे विस्मरयन्नश्च घोराः विस्मृत्या चरुणानि गृह्वान्धु पृथिव्या रे अनुवादस्य विट्टा ऐनम् गच्छन् विधमानम् नयोरा ताभिः स युक्ष्वथम् देवयीयरे स राजा अन्तरिक्षे पतिभिरीयवानो न निमीषदेकः अपां सका प्रथमस्विभूव आत्मा देवानाम् भुवनस्य गर्भो यथा पदम् जारति देवशेषः भोराजिरस्य दृण्म भजो भूर्वातो अभिवादूस्वभूजस्वतीरोषधीरारि सन्ताम् तीवस्वतीर्जीवधन् यास्विबन्द्वदेव रुद्रमृ यास्वरूपा विरूपा एकरूपाया सा मग्निरुश्चा नामा निवेद या अङ्गीर दत्तपासेन धत्पस्ताभ्यः पर्जन्यमहि शर्मा यच्छ या देवेषु धन्वा अनैरायन्दया सामो विश्वारूपाणि वेद सा अस्मभ्यम्भया सान्द्रामाना प्रजावादीरिन्द्रोष्ठेरी नो पितृभिः संविधानः शिवासीर्वाणो गोष्ठमागस्तासाम् भयम् प्रजजासंसारेमृहत्वाम्यम् मध्वा जर्द विकृतम् ूतो यो अभिरक्षा जित्मनाः प्रजा पुरुधाविराजिभ्राद्बृहत् सुभृसंवाददान् धन्वन् दिवो धनुे सत्यमर्पीतम् अमित्रारस्य हन्त मञ्जो निर्जज्ञे असुरः सभद्रः श्रेष्ठम् ज्योतिषाम् ज्योतिरुत्तमम् विश्वसिद्ध न चिदुच्छो मयूर्यो दृशगुरुम प्रथे सो जो अत्यूतम् लिभ्राजम् ज्योतिषा स्वा अरच्चोरोधनम् दिवः ेमा विश्वाभुवनान्याभृ विश्वकर्मणा विश्वदेव्यावतान्ध प्रापदारादः सोमि दोहवम् अहम् मखस्य दोधिरोचो भरः अगच्छ स्वामिनागृहम् इन्द्रम्य वासुरबुध्नाय वेन्नम् मुहस्क्रद्रावनस्य वे तुन्दरमिन्द्रसूर्यम् पश्चासन्द्रम् पुरस्कृधि देवानाञ्चित् निरोवसहम् आयायवनसा सहगावस्त्रवत्त्वनिम् यदूधभि आयायवश्वा धियामम् भिष्टो जानयन्माघस् सुदानोभिः संवर्तयति वर्तनिम् सुजातरा आत्मा हर्षमन्तरे ध्रुवश्रेष्टा बीजातलिः विधस्ता सर्वाचात्म्राष्टमधि ै दिवापचोष्टाः पर्वतयिवाजी चादलिः इन्द्राजिवेह ध्रुव राष्ट्रमोधारय इममिन्द्रो अधिधर ध्रुवम् ध्रुवे न हमिषा अस्मै तधिप्रभत्तस्मा ब्रह्म नस्पतिः ध्रुवाद्यो ध्रुवृथिवी ध्रुवादः पर्वता इमे ध्रुवम् विश्वभिरम् जगद्ध्रुवो राजा दिशामयम् ध्रुवन्ते राजावरोहा ध्रुवम् देवो बृहस्पतिः ध्रुवम् दयिन्द्रिश्च राष्ट्रम् धारयताम् ध्रुवाम् ध्रुवाम् ध्रुवेणा हमिषाभि सोमम् वृषापसि अथो जयिन्द्रः बहिदस्करत् भिवर्तेन हविषालेनेन्द्रोः अभिवार्ते तेनास्तान्द्रम् हरत्वभिराष्ट्राय जा वर्तय अभिवृत्य भा नभियानो अरादरः अभिवृदन्यन्तम् दृष्टाभियो न विरस्यति अभित्वाः देवः सिनाभिनोमो अभिवृदत् भित्वा विश्वाः भूतान्यभिमतो यथा येनेन्द्रो हविषा कृतभवद्गुम् न क्रमः इलम् ददकृसमत्नः किरा भुवम् असमत्नः स पत्नःभिराश्रो विशासहि यथाहमेषाम् भूतानाहम् विराजाः निरनस्य च ्रावाणस्वपिता देवस्वधर्मः दोर्षयुज्यध्वं दन ग्रावाणो अपदुच्छुनामपासे धुर्मयम् दूराकल्पन भेषणम् रावाणमुपादेष्वा हीयन्ते सजोषः कृष्णे दधातो वृक्षम् रावाणः स पितानुभो देवः सोऽपुधर्मणा विदमानायसं वरे स्वसूनवर्भूणाम् बृहन्न वन्द भृजना क्षमाजे विश्वधायतो स्वम् धेन मातरम् प्रदेवम् देव्या धिया भरता दारवेदनम् अव्यारो वक्षता लुषके अयमुष्टयुर्भोदाधिज्ञाय नीयते न धोनयोरभिवृतोघ्णीवाञ्जलिक्मनाः अयमग्निरोमृतादिभजन्मानः सतिस्स हीया देवो जीवात मे कृतः पतङ्गमत् प्रमसूरस्य माजनाः घृता पश्यन् वि मनसा विभस्थिताः समुद्रे अन्धः विचक्षते चक्षते परीचीनाम् पदमिच्छन्ति मेधसाः पलङ्गो वाचम् मनसा बिभर्तिराङ्गम् सर्वोध्यर्थे अन्तः रामाणाम् स्वर्यम् मनीरामृतस्य पदे कवचो जपति अवश्यङ्गोपामनी बा ने जीष्व जीर्वरानेष्वन्तः चभूषु बालिनम् देवजूतम् दधारुणाम् अनिष्टने बिम्बदम् स्वजेतार्क्यभिहूवेव इन्द्रस्येव राजिवायोः बाला स्वस्त्वजेदा भिमारुहेम ऊर्भेरवृध्वे बहु रेगभीरेमा वामे तौ मा परे तौरिषाम सद्यस्य सा पञ्च गृष्टिसूर्य इव सर्वस्र नर अचरम् घर्म स्वावरम् तेजुपरि न सर्व्या उच्चता वा शरेन्द्रस्य भागमृत्यम् यज्वादो जोर च श्रतो मम मत्तर श्रातम्भविरोऽस्मिन् प्रयाहि जगामनुरोध्यम् निःश्राधमद्मो जा जा जादम् मन्ये नृतम् न वीर्यम् दिनश्च तव नश्च दध्वः पिबेन्द्रवजम् गुरुगज्युषानः रद राजिरे इन्द्राभरक्षीरे रावसो रेव सिन्धो रामसि रेवनाम् ऋगो न भीमः कूचलोगे हृष्टाः परावताय गन्धापरस्याः श्रिगम् संसारीरिन्द्रजिह्मम् विशत्रोन्तास्व इन्द्रक्षत्रमभिभावो योजायथा ऋणभजऋनीना यश्च सप्रथश्च नामानुष्टुभश्च हविषो हविर्यत् धातुर्जुना विष्णो रथम् परमादभावशिष्टः अविन्दे सम्सीत् यज्ञस्य धाम परमम् गुहायत् विदुष्टविष्मा भरवाहा ध्यानायष्कन्द्रन्द्रे भजानम् आलज्जरास विदुष्टविश्वर्याभर धर्म मेरे ृहस्पतिर् नयतु पुनर्मे मन्म क्षिपदशस्य मपादन् मयिम् घनथाः करन्यजामानायसंयोः न राजम् लो नाम प्रजादे सन्नो अस्म न जाजो हेष् क्षिपदशस्य मपादन् महिम् घन्नधाः श्रीपदोण्यो पश्यन्वासारेदानम् तपसो धातम् तपसो विभूनम् विहप्रजा विहृदयम् राणः प्रजायश्व प्रजजाः पुत्रकाम अपश्यन्मन सात्ये नाधमाना यस्त प्रजया पुत्रकामे अहम् गर्भपदरामोढदेष्वहम् विश्वेभरेष्व अहम् पृथिव्यामहम् जनिभ्य अपरेषु पुत्रा न मेरुद्धर्जानिम् कल्पय दर्दष्टा रूपाणि विंशतु आदिम् गरो प्रजापा गर्भाता गर्भम् दधातु दे गर्भम् देहि दिनेवाधिगर्भम् देहि दरस्वति गर्भम् दे अश्विनौ देवाहत्ता निर्मन्तदो अश्विना ते गर्भम् भवामहे दशमे वासिसुता मे ये या मे कमलाः वदतु पुनरा अस्यै मे पुत्रकामायधे हिरपुमार यथेयम् पृथिवी मञ्च गर्भ मा दधे एवं दं गर्भवधे हि दशवे कृष्णा श्रेष्ठेन रूपेणास्याम् नार्याङ्गीन्याम् उमाम् सम्भोत्रा नादे च मे भासि सूतवेयाम् आदर्शम्बरुणस्य नेता मम चलनाध्व सुभाषणेषु यस्मै श्रोत्रायच्छन् जदश्रम् शम्भुमा यो भुरो हृदे प्रणायोषितानः सखा स नो जीवात वे कृधि ततो वा ते गृहे ये मृगस्य निनिर्घिनः ततो नो देहि जीवसे प्राक्तजे वादवीरजविषभालक्षिदीनाम् सरः परिषद तिद्विराः यतः परस्याः परामरस्तिरोधन्वातिरोचते सरः परिषद द्विडाः यो रक्षोषाः शुक्रेण शोदिषाः शनः परि ढल तिद्विषाः यो मे स्वामि अनेकवन्दभूतजे ग्रे सनः परिषद दिद्विडाः प्रदूरम् जातवेदमस्वम् विनोदभाजिनम् य ना बहिराले अस प्रजातवेदो विप्रालीरस्य विभृताः यालुतो जादवे दसो देवेः साभिन्नो यज्ञमिन्वतु जा पालयङ्गरोः कृष्णीरक्रवीदन्मातरम् पुलः त्रिहरम् जयन् स्वाह अन्तश्च रतिरोधनास्य प्राणादानी व्याख्यन्महिषो जा दिवम् धामीराज दिवाग्धीरहद्विः कृतङ्गा ध्यं जामेद्रोऽहं नमः नमादधि संवत्सरो अजायत अहोरात्राणि विरधद्विश्वस्य मि रो वशी ्रमसो धाता पूर्वमाकल्पयति दिवञ्च पृथिवी क्षमतो भर सङ्गच्छ ध्वन्ध्रम् रान्ध्रम् भोमनाम् श्र देवा भागम् यथा पूर्वे सञ्जाना उपासते समानामन्त्रस्तमे दिस्तमानीतमानम् मनः सह चित्तमे समानम् मन्त्रमभिमन्त्रय समानेन भो भविष्या विभोमि समानी वा को दिस्तमाना सञ्ज्ञानमुषलाः वद समञ्ज्ञानम् वरुणोऽवद सञ्ज्ञानमिन्द्रश्चाग्निश्च सञ्ज्ञानम् भवितावद सञ्ज्ञानम् भस्वेभ्यः सञ्ज्ञानवरणेभ्यः सञ्ज्ञानवस्विनाः इवमिहास्मा सुनियच्छता क्षीवाम् सम्भरणम् पुत्र अङ्गीरताम् भवेत् तेन विश्वे देवा सम्प्रियाम् समजीरन् सम्भावनाम् द्विजानताम् समागो धर्मणामसि असौ विमाना भरसाम् समावर्तयामसि नैर्शिवर्तये द्विः मित्राणाम् बाहून्विडा शोषया पसि पर्यात्मान्येषामिन्द्रः पूजा चलस्रुः एषाम्भो अग्निलग्धानामग्निमोढाणामिन्द्रोहं तु वरम् वरम् ऐषो नैकम् हरिणस्य धियम् यथा मित्रा मैरत्सर्वाजी गौरुवाजातु प्राभराणाम् पदेव सोः धर्वरेर्णक्रदो तुभ्यम् गायत्र मृज्जरे गोकामो अन्नकामः प्रजागाममुदकश्यवः भूतम् भविष्यत्रस्तौदि ब्रह्मै गमक्षरम् बहुब्रह्मयि गमक्षरम् यदक्षरम् भूतकृतम् विश्वेरेवासदे महर्निमस्य गोतारम् जवनिरकुर्वतम् जवनग्निराव्यायते सन्दोभिश्च दुरुत्तारैः राजा सोमस्य भक्षेण ब्रह्मणा वीर्यावता शिवानः प्रतिशोधितः सत्या न प्रतिशोधिताः अजो जे ज्यो ददृश्ये सम् ज्यो देः परो गुहा यदृभिः कस्य वस्तौति सत्यम्भ्रम् हजराधरम् धम्भ्रम् हजराधरम् त्रयायुढम् दमलग्नेकस्य पश्यत्रयायुढ मगत्यस्य त्रयायुढम् यद्देवानाम् त्र्यायुढम् धन्वे अस्तु त्रयायुढम् सर्वमस्तु सदायुढम् भरायुढम् तत्संयो रात्रिमहे घातुम् यज्ञाय घातुम् यज्ञपादये देवी स्वस्तिरस्त्व न स्वस्तिर्मा नो हेभ्यः ओ ध्वंजि घातु भे धनम् ै देवानामवमो विष्णः परमः परस्सरम् च गन्धोरो मण्डूरधानिकी हता इन्द्रस्य दत्वा सर्वे उद्भुतया दवः क्षाज्वान् आदिभाे निशान् धाभूञ्जनजन्योडाम् बृहदः पितुर्जा ऊर्ध्वम् भारम् सूर्यस्वस्वभाजम् दिवो वसुभिरृद्रो भद्रजातजामान आगात् सुधाहारम् जालो अभ्ययति पश्चात् सुप्रकेलैर्जुभिरग्लक्षम् नृतद्भिर्वर्णैरभि रामदा दक्षिणाभिजीकृतेन संजानप्राणीना बालि जानो नभश्चा तमो धीर्यादिद्विष्वानीतो अभयम् ज्योतिरस्या नवत्सः क्षीयमाणम् विपश्चितम् पितरम् मत्वा मेलिम् मरन्तम् भित्रो रूपस्थेलम् रोदी विवृतम् सत्यवादम् ृषो अक्षरे भरमेस्मिन् देवाधिविशयोः न वेदभृताकार्ययैतद्धिनस्त भद्रन्नवादनाः शान्ता पृथिवी शिवमन्तरिक्षम् जोर्नो देव्य भजन्नो अस्तु शिवादिश प्रदिशुद्धिशो नापो विद्युतः परीवान् सर्वतः शान्तिः शान्तिशान्तिः वाङ्मेवनधिप्रतिष्ठिता मनो मे माधिप्रतिष्ठितमामिर्मजेधि वेदस्य महानीर्थसुरम् मे माप्रहासीः अनेनाधीरेनाहोरात्रान् सम्दधामि रिष्यामि सत्यम् वरिष्यामि भवतु तद्भक्तारतु भक्ता रमतु भक्तारम् ओम् शान्तिशान्तिशान्तिः विश्वेश्वराय नमः विश्वेश्वर विरूमाक्षविश्वप सदासीवा शरणम् भवभूतेश करुणाकर शङ्कर हरशम्भो महादेव विश्वेशामरवल्लभ शिवशङ्कर सर्वात्मन् नीलकण्ठ नमोऽस्तु ते मृत्यम् जयाय रद्राय नीलकण्ठाय संभवे, अमृतेशाय सर्वाय महादेवाय धे नमः उग्राजोग्राहनाथाय भीमाय भजहारिणे ईशानाय नमस्तोभ्यम् पशूनाम् वदजे नमः एतानि शिवनामानि मण्डलान्ते निरः पठे नास्ति मृत्युभयम् तस्य पापलोकाय किञ्चन यज्ञेशाच्युतगोविन्दमाधवानन्दकेशव कृष्णविष्णो ऋषिकेशवासुदेव नमोऽस्तु ते कृष्णाय गोपिनाथाय चक्रिणे मुरवैरिणे रुक्मणीशाय नाथाय यदूनाम्बदजे नमः दश सप्त च नामानि मण्डलान् दे न गत्वा शिव लोहे महीयरे समिष्णाश्च पदम् गत्वा विष्णु लोह गे महीयरे शिव शङ्कर विघ्नेश्वर विठ्ठल मुकुन्द वामनवासु मात्रा हीनम् तत्सर्वम् क्षम्यताम् देवनारायण नमासुले निसर्गविन्दुमात्राणि च पदपादाक्षराणि च नूनानि चातिरिक्तानि क्षमः स्वपुरुषोत्तमा नूनातिरिक्तम् सर्वम् सुगुणमस्तु